मन्त्रव्याहारिणो ये च ऐश्वर्यात् सर्वगाश्च ये ये दे राजर्षयो युक्ता देवाद्विचनृपाश्च ये एतान् भावानधिकदा ये वैतऋषयो मदाः सप्तैदे सप्तभिश्चैव गुणैः सप्तर्षय स्मृताः दीर्खायुषो मंत्र ईश्वरा दिव्य चुष बुद्ध प्रत्यक्षण गोत्र प्रवर्तकर्मन शाली तुर्व्यवहर स्म ह्युष्ठकु अग्राम्यैर्वर्तयन्ति स्म रसैश्चैव स्वयं कृतैः कुटुम्बिनो बुद्धिमन्तो वनान्तरनिवासिनः कृतादिषु युगाख्यासु सर्वैरेव पुनः पुनः वर्णाश्रमव्यवस्थानं प्रथमं तु प्ते त्रेदायुगमुखे पुनः सप्तर्षयस्त्विः प्रवर्तयन्ति ये वर्णानाश्रमांश्चैव सर्वशः तेषामेवन्वये वीरा उत्पद्यन्ते पुनः पुनः जायमानेपिता पुत्रे एवं सन्तत्य विच्छेदाद्वर्तयन्त्यायुगक्षयाद् अष्टाशीतिसहस्राणि प्रोक्तानि गृहमेधिना हर्यम्णो दक्षिणं ये दु पितृयानं समाश्रिताः धाराग्निहोतृणस्ते वै यै प्रजाहेदवस्मृताः गृहमेधिनस्त्वसङ्ख्ये या श्मशानन्याश्रयन्ति ते निहिता उत्तरापथे ये श्रूयन्ते दिवं प्राप्ता ऋषयो ह्यूर्ध्वरे दशः मन्त्रब्राह्मणकर्तारो च युगक्षयात् एवमावर्तमानास्ते द्वापरेषु पुनःपुनः कल्पानां विद्यानां नाना शास्त्रकृतश्चये क्रियधेयैर्व्यवधृतिर्वैदिकानां च कर्मणां वैव तस्मिन् द्वापरेषु पुनः अष्टाविंशतिकृत्वो वै वेदाव्यस्ता महर्षिभिः सप्तमे द्वापरे व्यमता स्वयं वेदा स्वयंभुवा द्वितीये द्वापरे चैव वेदव्यास प्रजापतिः चोशना चोषणाव्यासश्चतुर्थे च बृहस्पतिः सविता पञ्चमे व्यासो मृत्युषष्ठे स्मृतः प्रभुः सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे स्मृतः सारस्वतस्तु नवमे त्रिधामा दशमे स्मृतः एकादशे द्वित्रिवर्षा सनद्वाजस्ततः तयोदशे चांदो धर्मचापी चतुर्दशे पंचदशे षोडशे धनंजय कृतंजय सप्तशे रिजीषोषादे स्मृत रुजिषा तो भरद्वाजो भरद्वाज तो गौतमादुतमश्चैव तदोहर्यवनस्मृतः हर्यवनात् परो वेन स्मृतो वाजश्रवास्ततः अर्वाक्च वाजश्रवससोममुख्यायनस्ततः तृणबिन्दुस्ततस्तस्मात् तदजस्तृणबिन्दुतः तदजाच्च स्मृतशक्तिशक्तिश्चापि पराशरः जादूकर्णो भवत्तस्मात् तस्माद्वैपायनस्मृतः अष्टाविंशतिरित्येदे वेदव्यासा पुरातनाः भविष्ये द्वापरे चैव द्वो निर्द्वैपायनेऽपि च वेदव्याशेष्यति तेऽस्मिन् भवितात् सुमहातपाः भविष्यन्ति भविष्येषु शाखाप्रमयनानि तु तस्यैव ब्रह्मनो ब्रह्मतपः स प्राप्तमव्ययम् तपसा कर्मचप्राप्तं कर्मणा चापि ते यशः पुनश्च तेजसा सत्यं सत्येनानन्दमव्ययं व्याप्तं ब्रह्मामृतं शुक्रं ब्रह्मैवामृतमुच्यते ध्रुवमेकाक्षरमिदमो मित्येवव्यवस्थितम् बृहत्वा ब्रृणाच तब्रेतय प्रथम भूय भूर्भुवस्विधि स्मृत अधर्व यजुस्मा यस्म ब्रह्मणे नम जगतः प्रलयोत्पत्तौ यत्तत्कारणसंज्ञ महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः अगाधापारमक्षयं जगत्सम्भोहसम्भवं सम्प्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् संख्यज्ञानवतां निष्ठा गतिशमदमात्मनां यत्तदव्यक्तमदं प्रकृतिर्ब्रह्मशाश्वतं प्रधानमात्मयोनिश्च गृह्यं सत्वं च शस्यते अविभागस्तथा शुक्रमक्षरं बहुधात्मकम् परमब्रह्मणे तस्मै नित्यमेव नमो नमः कृते पुनः क्रिया नास्ति कृतक्रियाः सकृदेव कृतं सर्वं यद्वै लोके कृता कृतं श्रोतव्यं वा श्रुतं वापि तथैव वा। साधु साधु वा। ज्ञातव्यं वाप्यमन्तव्यं सप्रष्टव्यं भोज्यमेवच च द्रष्टव्यं वाधश्रोतव्यं ख्राधव्यं वा कथञ्चन दर्शितं यदनेनैव ज्ञातं यन्न दर्शितवानेष दन्वेष्टु पस्तदन्वेष्टुमर्हति सर्वाणि सर्वं सर्वांश्च भगवानेव सोब्रवीद यदा यत् क्रियते येन तदा तस्मोऽभिमन्यते यत्रेदं क्रियते पूर्वं न तदन्येन भाषितं यदा च क्रियते येनचिद्वा कथं क्वचित् तेनैव तत्कृतं कृत्यं कर्तॄणां प्रतिभादि वैविरिक्तं चातिरिक्तं च ज्ञानाज्ञाने प्रियाप्रिये धर्माधर्मौ सुखं दुःखं मृत्युश्चामृतमेव च ऊर्ध्वम् शिल्यगधो भावस्तस्यैवा दृष्टकारिणः स्वयं भुवो ध ज्येष्ठस्य ब्रह्मणः परमेष्टिनः प्रत्येकवेद्यं भवदित्रे दश्विखपुनःपुनः यस्य देह्येकवेद्यं तु द्वाबरेषु पुनःपुनः ब्रह्मा चैतानुवाचादौ तस्मिन्वैव स्वदेन्दरे आवर्तमाना ऋषयो युगाख्यासु पुनः पुनः कुर्वन्ति संहिताह्येते जायमानाः परस्परम् अष्टाशीतिसहस्राणिश्रुदर्षीणां वै ु व्यगीतानि वर्तन्ते पुनः पुनः श्रुता दक्षिणपन्थानं ये श्मशानिभेधिरे युगे युगे तु ता शाखा व्यस्य ते पुनः पुनःपुनः द्वापरेष्विह सर्वेषु संहितास्तु श्रुतर्षिभिः तेषां गोत्रेष्विमाः शाखा भवन्ति हि पुनः पुनः ताः शाखास्ते च कर्तारो भवन्तीहा युगक्षयाद् एवमेवदुविज्ञेया अधीतानागदेष्वपि मन्वन्तरेषु सर्वेषु शाखाप्रणयनानि वै अतीतेषु व्यतीतानि वर्तन्ते साम्प्रतेन्दरे भविष्यन्ति च यानि स्युर्वत्स्यन्तेनागतेष्वपि पूर्वेण वर्तमानेन चोभयं ये तेन क्रमयोगेन मन्वन्तरविनिश्चयः देवाः सपितरऋषयो मनवश्च वै मन्त्रैः सहोर्ध्वं गच्छन्ति ह्यावर्तन्ते च तैः सह जनलोकात्सुराः सर्वे दशकल्पान्पुनःपुनः पर्यायकाले सम्प्राप्ते सम्भूता निधनस्य अवश्यभाविनार्थेन सम्बध्यन्ते तदा तु ते ततस्ते दोषवज्जन्म पश्यन्तो योगपूर्वकं निवर्तते तदा वृत्तिसा तेषां दोषदर्शनाद् दर। एवं देवयुगानिह दशकृत्वो विवर्त्यवै जनलोकात्तपोलोकं गच्छन्ती हानिवर्तकं एवं देवयुगानि सव्यतीतानि सहस्रशः निधनं ब्रह्मलोके वै गतानि ऋषिभिस्सह न शक्य आनुपूर्व्येण तेषां वक्तुं सुविस्तरः अनादित्वा च कालस्य सङ्ख्यानां चैव सर्वशः मन्वन्तराण्यतीतानि यानि कल्पैः पुरा सह पितृभिर्मुनिभिर्देवैः सार्धं च ऋषिभिः सह कालेन प्रतिसृष्ठानि युगानां च विवर्तनं क्रमयोगेन कल्पमन्वन्तराणि च सप्रजानि व्यतीतानि मन्वन्तरान्ते संहारसंहारान्ते च सम्भवः देवतानामृषीणाञ्च मनोः पितृगणस्य च न शक्य आनुपूर्व्येण वक्तुं वर्षशतैरपि विस्तरस्तु निसर्गस्य संहारस्य च सर्वशः मन्वन्तरस्य सङ्ख्या तु मानुषेण निबोधत मन्वन्तरास्तु सङ्ख्यादात् सङ्ख्यानार्थविशारदैः त्रिंशत्कोट्यस्तु सम्पूर्णा सङ्ख्यादात् सङ्ख्यायाद्विजैः सप्तषष्टिसङ्ख्यान्यानि नियुतानि जङ्ख्याया विंशतिश्च सहस्रामिकालोऽयं साधिकं विना मन्वन्तरस्य सङ्ख्येयं मानुषेण प्रकीर्तिता वर्षाग्रेणापि दिव्येन प्रवक्ष्याम्युत्तरं मनोः अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतं द्विपं च शन्यानि सहस्राण्यधिकानि तु चतुर्दशगुणोह्येष कालोह्याभूदसंप्लवम् पूर्ण युगसहस्रह्मण स्मृत तद सर्वाणी भूता दिख्यरश्भ ब्रह्मणाग्रध सह सहदेवर्षि दानवै प्रविशन्ति सुरश्रेष्ठं देवं नारायणं प्रभुं सस्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः इत्येष स्थितिकालो वै मदो देवर्षिभिः सह हि प्रतिसन्धिं निबोधत युगख्याया समुद्धिष्टा प्रागे तस्मिन्मया नखाः कृतत्रेदादिसंयुक्तं चतुर्युगमिति स्मृतं तच्चैकसप्ततिगुणं परिवृत्तं तु साधिकं मनोरेदमधिकारं प्रोवाच भगवान् प्रभुः एवं मन्वन्तराणां च सर्वेषामेव लक्षणम् वै वर्तिमानेन कीर्तितम् इत्येष कीर्तितः सर्गो मनोस्वायम्भुवस्य ते तु वक्ष्यामि तस्य चैवापरस्य च मन्वन्तरं यथा पूर्वमृषिभिर्दैवतैः सह अवश्यभाविनार्थेन यथा वद्विनि वर्तते यदस्मिन्नन्तरे पूर्वं त्रैलाक्यस्येश्वरास्तु ये सप्तर्षयश्च देवाश्च पितरो मनवस्तथा मन्वन्तरस्य काले सम्पूर्णे साधिके तदा क्षीणेऽधिकारे संविघ्ना बुद्ध्वा पर्ययमात्मनः महर्लोकायते सर्वे उन्मुखाद्दधिरे मदिं तदो मन्वन्तरे तस्मिन् प्रक्षीणे देवतास्तुताः सम्पूर्णे स्थितिकाले तु तिष्ठेदेकं कृतं युगम् उत्पद्यन्ते भविष्यन्तो ये वै मन्वन्तरेश्वराः देवताः पितरश्चैव ऋषयो मनुरेव च मन्वन्तरे तु तद्वदन्ते कलौ संपदिष्टु वै तदा यहात से सन्दिपूर्वस्मृदु तथा मन्वरा तु आदिम से क्षीणे मन्वरे पूर्वे प्रवृत्ते चापरे पुनः मुके कृतयुगस्याध तेषां शिष्टास्तु ये तदा सप्तर्षयो मनुश्चैव कालापेक्षास्तु ये स्थिताः मन्वन्तरप्रदीक्षास्थे क्षीयमाणास्तपस्विनः मन्वन्तरोत्सवस्यार्थे सन्तत्यर्थे पूर्ववत्सम्प्रवर्तन्ते प्रवृत्ते वृष्टिसर्जने द्वं द्वेषु सम्प्रवृत्तेषु उत्पन्नास्सौषधीषु च प्रजासु चानिकेतास्सु संस्थितास्सु क्वचित् क्वचिद् वार्तायां सम्प्रवृत्तायां धर्मे चैवोपसंस्थिते निरानन्दे चापि लोके नष्टे स्थावरजङ्गमे अग्रामनगरे चैव विवर्जिदे पूर्वमन्वंदरे शिष्ठा ये भवन्ति स धार्मिकाः सप्तर्षयो मनुश्चैव सन्तानार्थं व्यवस्थिताः प्रजार्थं तपतां तेषां तपः परमदुश्चरम् उत्पद्यन्ते हि पूर्वेषां निधनेष्विह पूर्ववद देवासुराः पितृगणा ऋषयो मानुषास्तथा सर्पा भूदपिशाचाश्च गन्धर्वायक्षराक्षसाः तदस्ते शान्तु ये शिष्टाशिष्टाचारान् प्रजक्षते सप्तर्षयो मनुश्च वह्यादौ मन्वन्तरस्य हि प्रारम्भते च कर्माणि मनुष्यो दैवतैः सह ऋषीणां ब्रह्मचर्येण गत्वा नृण्यं तु व तदा पितॄणां प्रजाया चैव देवानां विद्यया तथा शतं वर्षसहस्राणां धर्मे पर्णात्मके स्थिताः त्रयीवार्तादण्डनीधिर्धर्मान्वर्णाश्रमां तथा स्थापयित्वाश्रमांश्चैव स्वर्गाय देधिरे मनः पूर्वदेवेषु तेष्वेवं स्वर्गायाभिमुखेषु वै पूर्वदेवास्तदस्ते वै धर्मेण कृष्णशखा मन्वन्तरे पुरा वृत्ते स्थानान्युत्सृज्य सर्वशः मन्त्रैः सहोर्ध्वं गच्छन्ति महर्लोकमनामयं विनिवृत्ताधिकारास्ते मनसिं सिद्धिमास्थिताः अवेक्षमाणा वशिनस्तिष्टन्त्या भूतसम्भवात् तदस्तेषु व्यदितेषु पूर्वदेवेषु वै तदा शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः उपस्थिता इहान्ये वै ये देवा स्वर्गवासिनः तदस्ते तपसा युक्तास्थानान्या पूरयन्ति च सत्येन ब्रह्मचर्येण श्रुतेन च समन्विताः सप्तर्षीणां मनोश्चैव देवानां पितृभिः सह निधनानीह पूर्वेषामादिताञ्च भविष्यताम् तेषां सन्तत्यविच्छेद इहा मन्वन्तरक्षयाद एवं पूर्वानुपूर्व्येण स्थितिस्तेषामवस्थिता मन्वन्तरेषु सर्वेषु यावदा भूदसंप्लवं तु प्रदि सन्थानलक्षणम् अधीतानागतानां वैप्रोक्तं स्वायम्भुवे न तु मन्वन्तरेष्वतीतेषु भविष्याणां तु साधनं एवं सन्तत्यविच्छेदो भवत्या भूदसम्प्लवाद मन्वन्तराणां परिवर्तनानि ह्येकां तदस्थानि महर्गदानि महाजनं चैव जनान्तपश्चैकान्तगानि प्रभवन्ति सत्ये तद्भाविनां तत्र दुदर्शनेन नानात्वदृष्टेन च प्रत्ययेन सत्ये स्थिता नित्यतया तु नित्यं प्राप्ते विकारे प्रदिसर्ग काले। मन्वन्तराणां परिवर्तनानि मुञ्जन्ति सत्यं तु तदो तदो भियोगा ततोपरान्त ततोऽभियोगा विषयप्रहाणाद्विषं दिनारायणमेव देवम् मन्वन्तराणां परिवर्तनेषु चिरप्रवृत्तेषु विधिस्वभावाद् क्षणं न वैतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः इत्यन्तराण्येव ऋषिस्तुतानां धर्मात्मनां दिव्यदृशां मनूनां वायु प्रणीता नुपलभ्य दृश्याज सासमगै सर्वानि राजर्षि सुरिमधि ब्रह्मिदरगवंद चुरेश सषि पितृप्रजेशुता सम्यक पिरीवर्तना उदारवंशाभिजनश्रुदीनां प्रकृष्टमेधाभिसमेधितानां कीर्तिद्युदिख्यादिभिरर्चितानां पुण्यं किविश्यापनमीश्वराणां की स्वर्गीयमेदत् परमं पवित्रं पुत्रीयमेदच्च परं रहस्यम् जप्यं महापर्वशुच्चैतदग्र्यं दुःखापशान्तिप्रथमायुषीयम् प्रजशदवर्षिमनुप्रधानां पुन्यां प्रसूदिं प्रथितामजस्य ममापि विज्ञापयदः समासात्सिद्धिं प्रजेशाप्रदिशन्तु युक्ताः इत्येतदन्तरं प्रोक्तं मनोस्वायम्भुवस्य च विस्तरेणानुपूर्व्या च भूय किं वर्णयाम्यहम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे वेदव्यसनाख्यानम् स्वायम्भुवमन्वन्तरवर्णनं च नाम पञ्चत्रिंशत्तमोऽध्यायः ओ